श्रीमद्भागवतमहापुराणं चतुर्षस्कन्ध अथ नवोऽध्यायः मैत्रे उवाच उरुक्रमे कृतावनामा प्रयूविष्टपं सहस्रशेषापि ततो गरुत्मता मधोर्वनं भृत्यति स वैधिया योगविपाकतीव्रयाचित् स्फुरतं तडित्प्रभं तिरोहितं सहसैवोपलक्ष्य बहिस्थितं तद्वस्थं ददर्श तद्दर्शनेनागतसाध्वचिताम्ब वन्दताङ्गम् मय्यदन्नवत् दिव्यां प्रपश्यन् प्रपिबन्निविवार्भकचुम्बन्निवास्येन भुजैरिवाश्लिषन् स तं विवक्षन्तमतद्विदेदं हरिं ज्ञात्वस्य सर्वस्य च यद्यवस्थितः कृताञ्जलिं ब्रह्ममये कुङ्कङ्गुमात्स्पर्शं पस्पर्शपालं कृपया कपोले स वै तदैव प्रतिपादितां गिरं दैवीं परिज्ञातपरात्मनिर्णयः तं भक्तिभावोऽभ्यगिणादसत्वरं परिस्रुतोरुस्रवसं स्रुवक्षितिः ध्रुवाच यो वन्तः प्रविश्य मम वाचमिमां प्रसुप्तां सञ्जीवयत्यखिलशक्तिधर स्वधाम्नाम् अन्यास्तहस्तचरणश्रवणत्वगादीन् प्राणान्नमो भगवते पुरुषाय तुभ्यम् एकस्त्वमेव भगवन्नतमात्मशक्त्या माख्याययोरुगुणयामहदाद्यशेषं सृष्ट्वा न विश्य पुरुषं तद् सद्गुणेषु नानेव दारुषु विभावसुवद्विभासि तद्दत्तया वयुनयेदमवं चष्टविश्वं शुप्तप्रबुद्ध इव नाथ भवत्प्रपन्नः तस्यापवर्ग्यशरणं तव पादमूलं विमर्यते कृतविदा कुथमार्तबन्धो नूनं विमुष्टमति यः स्वमाययाते ये त्वां भवाप्ये विमोक्षणमन्यहेतोः अर्चन्ति कल्पकं कतरुं गुणपोपभोग्यम् इच्छन्ति यस्पर्शजं निरयेऽपि नृणाम यान्वेस्ततनुभृतां तव पादपद्मध्यानाद्भवज्जनकथाश्रवणेन वाशा ब्रह्मणेश्वमहिमन्यपि नाथ मा भूय किं तन्तकाशीन् लुलितात्पदतां विमानान् भक्तिं मुहो प्रवहतां तै मे प्रसङ्गो भूयादनन्तमहतामलाशयानां येनाञ्जसोल्बणमुरोऽभ्यसनं भवाब्धिं नेसे भवद्गुणकथामृतपानमत्तः तेन स्मरन्त्यतितरं तितरां प्रियमी समर्चं ये चान्वद सुतसृहे गृहवित्तदाराः धे त्वब्जनाप भवदीयं पदारविन्दसौगन्धलुब्ध हृदिये सुकृतप्रसङ्गा <laughs> तिर्यङ्गद्बीजसरे श्रीपदैव दैत्यम् अर्त्यादिभिपरिचितं सद्विशेषं रूपं सवेष्टमजं ते महदाद्यनेकं नाथ परं परं वेद्मिनि कल्पान्त एतदखिलं जठरेण गृह्णन् शेते पुमान् स्वातिघनन्तसखस्तदङ्के जन्नाविसिन्दुरुहकाञ्चनलोकपद्मगर्भेतुमान् भगवते प्रणतोऽस्मि तस्मै तं नित्यमुक्तपरिशुद्धविबुद्धपात्मा कूटस्थ आदिपुरुषो भगवान् चधीशः यद्बुद्ध्यवस्थितमखण्डितया स्वदृष्ट्या द्रष्टासीतावधिमको व्यतिरिक्त आसीत् यस्मिन् विरुद्धगतियो हि निसम्पतन्ति विद्याधियो विविधशक्ते आनुपुर्यात् तद्ब्रह्मविश्वभवमेकमनन्तमाद्यम् आनन्दमात्रम् अविकारमहं प्रपद्ये सत्याशिषो हि भगवन्तव पादपद्मम् आसीस्तथानुभजत पुरुषार्थमूर्तेः अप्येव मर्यं भगवान परिपाति दीनान् वा श्रीवत्सकमनं गृहकातरोऽस्मान् मैत्रीवाच अथा अथाभिषुभिष्टुत एव वै सत्सङ्कल्पेन धीमता भत्यानिरक्तो भगवान् प्रतिनन्दिम् अब्रवीत् श्रीभगवान् वाच वेदाहं ते व्यवसितं श्रीराजन्यपालक तत्प्रयक्षामि भद्रं ते दुरापमपि सुब्रत नान्यैरधिष्ठितं भद्र यन्भ्राजिष्णु ध्रुवक्षिते यद्यग्रहक्षां तारणां ज्योतिषां चक्रमाहितम् मेढ्यां गोचक्रवस्तास्तु परास्तान् कल्पवासिनां धर्मोऽग्निकश्यप शुक्रो मुनियो येन नौकषः चरन्ति दक्षिणीकृत्य भ्रमन्तो यस्य तारकाः प्रस्थिते तु वनं पित्रा दत्त्वा गां धर्मसंशयः तद्भ्रातर्युत्तमे नष्टे मृगयां तु तन्मनाः अन्वे सन्ते वनं माता दावाग्निंसा प्रवेक्षति इष्टा मां यज्ञहृदयं यज्ञैपुष्कलं दक्षिणैः भुक्त्वा तेहासि च सत्या अन्ते मां संस्मरिष्यसि ततो गन्तासिमस्थानं उपरिष्टादृशिभ्यस्त्वं यतो नावर्तते गतः मैत्री उवाच इत्यर्चित स भगवान्नतिदिश्यात्मनः पदं बालस्य पश्यतो धाम समागाद्गरुणध्वजः सोऽपि सङ्कल्पजं विष्णोपादसेवोपसादितम् प्राप्य सङ्कल्पनिर्वाणं नातिप्रीतोऽभ्यगात्पुरम् विदुर्वाच सुदुर्लभं सुदुर्लभं यत्परमं पदं हरेर्मायाविनस्तचरणार्चनार्जितं लब्ध्वाप्यसिद्धासमवैकजन्मना कथं स्वात्मान् स्वमात्मान मन्मन्मन्यतार्थवित् मैत्रीवाच मातुः सपत्न्या वाग्वालेश्रिविद्धस्तुतां स्मरन् नेच्छन्मुक्तिपतिर्मुक्तिं तस्मात्तापमुपेयिवान्